अत तृतीयाष्टः तृतीयप्रश्नप्रारम्भः ओ प्रत्युष्टगम् रक्षः प्रत्युष्टा अरातजगित्याह रक्षसामपहत्यै अग्नेर्वस्ते जिष्ठेन तेजसा निष्टपा मेत्याह मेध्यत्वाजा स्रुचः पुमागुंसमेवाभ्यः सद्दिश्यति मिथ मत्वाय अथ जुहूम् अथोपभृतम् अथ ध्रुवाम् असौ वैजुहोः अन्तरिक्षमुपभृत् पृथिवी ध्रुवा इमे वै लोकाः शुचः वृष्टिः सम्मार्जनानि वृष्टिर्वा इमाम् लोकानपूर्णम् ते तत क्ल सामने लोका प्रजया पशु यगे वेद यदि कामेतवर्षुक का पजन्य सग्रत सम्या वृष्टिमे नक्षति अवाचीना आग्रा वृष्टि यदि कामेतावर्षुक का सैदि मूलत सम्रज्यादिमे तदुवा अग्रत एवोपरिष्टात् संवृज्यात् मूलतोधस्तात् तदनुपूर्वम् कल्पते वर्षुको भवतीति प्राचीमभ्याकारम् अग्रैरन्तरतः एवमिवह्यन्न मद्यते अथो अग्राद्वा ओषधीनामोर्जम् प्रजा उपजीवन्ति ऊर्जदेवान्नाद्यस्यावरुद्ध्यै अधस्तात् प्रतीचीयम् दण्डमुत्तमतः मूलेन मूलम् प्रतिष्ठित्यै तस्मादरत्नौ प्राञ्च्युपरिष्टाल्लोमानि प्रत्यञ्च्यधस्तात् सुघेषा प्राणो वै शुवः जुहोर्दशिषिणो हस्तः उपभृत्सव्यः आत्मा ध्रुवा अन्नकुम् सम्मार्जनानि खतो वै प्राणोपानो भूत्वा आत्मानमन्नम् प्रविश्य बाह्यतस्तनुभगुम् शुभयति तस्मात्स्रुवमेवाग्रे सम्मार्षि मुखतो हि प्राणोपानो भूत्वा आत्मानमन्नमाविशति तौ प्राणापानौ अव्यर्थुकः प्राणापानाभ्याम् भवति य एवम् वेद दिवः शिल्पमवतम् पृथिव्याः तेन भयगुम् सहस्रबलिशेन सपत्नम् नाशयामसि स्वाहे दःसृक्सम्मार्जनान्यग्नौ प्रहरति आशो वैदर्भाः रूपमेवैषामे तन्महिमानम् याचष्टे अनुष्टुभर्चा आनुष्टुभः प्रजापतिः राजापत्यो वेदः वेदस्याग्रग्रःसृक्सम्मार्जनानि स्वेनैवैनानि छन्दसा या दतया सथो ऋग्वापजोषा दर्भोषा तिथुनमिथुन में त्यज्ञे कौति प्रजननाय प्रजाते प्रजया पशुम तान्येक वृथ्वा पा से न कार्य आरब से ज्ञयस कर्मण स विदोह यदेना पशवो भीतिेयो न तत्पशुभ्यः कम् अद्भ्यर्मार्जयित्वोत्करेऽन्यस्येत् यद्वै यज्ञयस्य कर्मणोऽन्यत्राहुतेभ्यः सन्तिष्ठते उत्करो वा तस्य प्रतिष्ठा एतागु हि तस्मै प्रतिष्ठाम् देवाः समभरन् यदद्भ्यर्मार्जयति तेन शान्तम् प्रतिष्ठा वेनानि तद्गमयति प्रतिष्ठति प्रजया पशुभिर्यजमानः अथो स्तम्बस्य वा एतद्रूपम् यत्सृक्सम्मार्जनानि स्तम्बशो वा ओषधयः तासा अञ्जरत्कक्षे पशवो न रमन्ते अप्रियो ह्येषाञ्जरत्कक्षः यावदप्रियो ह तावदप्रियः पशूनाम् भवति यस्यैतान्यत्राग्नेर्दधति नवदाव्यासु वा ओषधीषु पशवो रमन्ते प्रियः यावत्प्रियो ह वै नव दावः पशूनाम् तावत्प्रियः पशूनाम् भवति यस्यैतान्यग्नौ प्रहरन्ति तस्मादेतान्यग्नावेव यदरस्मिन् संव्रज्यात् पशूनाम् धृत्यैः यो भूतानामधिपतिः रुद्रस्तन्ति चरोवृषाः पशूनस्माकम् माहिपुंसीः एतदस्तु हुतन्तवस्वाहेत्यग्निसम्मार्जनान्यग्नौ प्रहरति केषा वा एतेषाम् योनिः एषा प्रतिष्ठा स्वामेवेनानि योनिम् स्वाम् प्रतिष्ठाम् गमयति प्रतिष्ठति प्रजजा पशुभिर्यजमानः अयज्ञो वा एषः यो पत्नीकः न प्रजाः प्रजाजेरन् पत्न्यन्वास्ते यज्ञमेवा कः प्रजानाम् प्रजननाय आसीना ह्य करोति यत्पश्चात्प्राच्यन्वा सीत अनजा समदन्दधीत देवानाम् पत्न्यया समदम् दधीत देशा दक्षिणत उदीच्यन्वास्ते आत्मनो गोपीठाय आशासानासौ मनसमित्याह मेऽध्या मे वेनाम् केवलीम् कृत्वा आशिषा अग्नेरणम् सन्नह्ये सुकृतायकमित्याह ये तद्व्यैपत्न्ययैव्रतोपनयनम् तेनैवैनाम् व्रतमुपनयति तस्मादाहुः यश्चैवम् वेदयश्च न योक्त्रमेव युते यमन्वास्ते तस्यामुष्मिं लोके भवतीति योक्त्रेण स क्षेमः लोकक्षेमस्य कृत्यै युक्तम् क्रियाता आशेः कामे युज्याता इति आशिषः समृद्धि ग्रन्थिम् ग्रथ्नाति आशिष एवास्याम् परिगृह्णाति पुमान वै ग्रन्थिः स्त्रीपत्नी तन्मिथनम् मिथनमेवास्य तद्यज्ञे करोति प्रजननाय प्रजायते प्रजया पशुभिर्यजमानः अथो अर्धो वा एष आत्मनः यत्पत्नी यज्ञस्य धृत्या शिथिलम् भावाय सुप्रजसस्ता सुपत्नी सुपत्नीरुपसे दिमेत्याह यज्ञमेव तन्मिथुने करोति ऊनेतिरिक्तम् धे जाता इति प्रजाति हीनाम्बजोऽस्योषधीरागुम् रसनित्याह रूपमेवास्त्यैतन्महिमानम् व्याचष्टे तस्य रे क्षीयमाणस्य निर्वपामि देव लज्जा इत्याह आशिषमेवेतामाशास्ते घृतम् च वे मधु च प्रजापतिरासीत् यतो मध्वासीत् ततः प्रजा असृजता तस्मान्मधुषिप्रजननमिवास्ते तस्मान्मधुषा न प्रचलन्ति यातयामहि आज्येन प्रचलन्ति यज्ञो वा आज्यम् यज्ञेनैव यज्ञम् प्रचलन्त्यजातया मत्वाय पत्न्यवे एक्षते मिथुनत्वाय प्रजात्यै यद्वै पत्नी यज्ञस्य करोति विथुनन्तत् अथो पत्न्यया एवैष यज्ञस्याम्बारम्भो नवच्छित्यै मेध्यम वाएति येक्षिश्रयति मेध्यय आहवनीयभ्युद्रवती येजोसी तेजो ते प्रेहीत्याह तेजोवा तेज ते आज्येजस तेज समय अग्निस्ते ते जोमाविनेत्याहाहिगुंसायै स्फ्यस्य वर्णम् साधयति यज्ञस्य सन्तत्यै अग्नेर्जिह्वासि शुभोर्देवानामित्याह यथा युजुरेवैतत् धाम्े धाम् देवेभ्यो युजुषे युजुषे भवेत्याह आशिषमेवैतामाशास्ते तद्वातः पवित्राभ्यामेवोत्पुनाति यजमानो वा आज्यम् प्राणापानौ पवित्रे यजमान एव प्राणापानो दधादि पुनराहारम् एवमिव हि प्राणापानौ सञ्चरतः शुक्रमसि ज्योतिरसिते ज्योसीत्याह रूपमेवास्यैदन्महिमालम् वाचष्टे पर्यजुषा त्रय इमे लोकाः येषाम् लोकानामाप्यै वृद्धियज्ञः अथो मे ध्यत्वाय अथाध्यवतीभ्यामपः रूपमेवासामेतद्वर्णम् दधाति अपि वा यथा ह वै योषा सुवर्णगुम्हिरण्यम् पेशलम् बिभ्रतीरूपाण्यास्ते एवमेता एतर्हीति आपो वै सर्वा एषा हि विश्वेषाम् देवानान्तनोः यदाज्यम् तत्रो भयोर्मीमापुंसा जामिः स्यात् यद्यजुषाज्यम् यजुषाप उत्पुणीयात् छन्दसाप उत्पुनात् त्यजामित्वाय अथो मिथुनत्वाय सावित्र्यर्चा सवितृप्रसूतम् मे कर्मा सदिति सवितृप्रसूतमेवास्य कर्म भवति अच्छोगायत्रिजा कृष्णवृद्धत्वाय अभ्येवोषधीः सन्नयति ओषधेभ्यः पशून् पशुभिर्यजमानम् शुक्रन्ता शुक्रायाम् ज्योतिस्त्वा ज्योतिषाच्यस्त्वाच्युषेत्याह सर्वत्वाय पर्याप्त्या अनन्तरायाय देवासुरास्य यत्ता आसन् स तेना वैक्षत ततो देवा अभवन् परासुराः य एवम् विद्वानाज्यमपेक्षते भवत्यात्मना परास्य भ्रातृर्यो भवति ब्रह्मवादिनो वदन्ति यदाज्ये नान्यानि हवे गह्यभिघारयति अथ केनाज्यमिति सत्येनेति चक्षुर्वै सत्यम् सत्येनैवैनदभिघारयति ईश्वरो वा एषोऽधो भवितोः यश्चक्षुषाज्यमपेक्षते निहील्यावेक्षेत दाधारात्मन् चक्षुः अभ्याज्यम् धारयति आज्यम् गृह्णाति छन्दागुम् शिवा आज्यम् छन्दागस्येव प्रीणाति चतुर्जुह्वाङ्गृह्णाति चतुष्पादः पशवः पशूनेवावरुन्धे अष्टावुपभृति अष्टाक्षरागायत्री गायत्रः प्राणः प्राणमेव पशुषु दधाति चतुर्ध्रुवायाः चतुष्पादः भ्रातृव्यदेवत्योपभृत् चतुर्ज्यह्वाम् गृह्णन् भूयो गृह्णीजात् अष्टावपभृति गृह्णन् कनीजः यजमाना देव भ्रातृविजमुपस्थितिम् करोति दोर्वे सृचः चतुर्थ्यह्वाम् गृह्णाति तस्माच्चतुष्पदी अष्टावुपभृदि तस्मादष्टाशभा चतुर्ध्रुवायाम् तस्माच्चतुस्तना गामेव तत्सग्स्करोति सास्मै सग्गस्कृते शमोर्जन्धुहे यज्जुह्वान् गृह्णाति प्रजादेभ्यस्तत् यदुपभृति प्रजानुयाजेभ्यस्तत् सर्वस्मै वा एतद्यज्ञा जष्यते यद्ध्रुवाजामाज्यम् आपो देवीरग्रे पुभो अग्रे गुरत्याह अग्रेव रूपमेवासामेतन्महिमानम् जाचष्टे अग्रजिमञ्जज्ञम् नजताग्रे जज्ञपतिमित्याह अग्रजेव जज्ञम् नजन्ति अग्रे यज्ञपतिम् विश्वानिन्द्र अवर्णेतव्रत्रतोर्येजोजमिन्द्रमवर्णेभ्यम् व्रत्रतोर्यजित्याह वत्र गंह नश्यन्मिन्द्र आपो वव्रे आपो मेवासामेतत्सामानम् द्याृष्टे प्रोक्षितास्थेत्याः तेनापः प्रोक्षिताः अग्निर्देवेभ्यो निलाजत कृष्णो रूपम् गत्वा स्वतीन् प्राविशत् कृष्णास्या खरेष्ठो अग्नजेत्वा स्वाहेत्याह अग्नजदेवैनन्दिष्टम् करोति अथो अग्नेरेव मेधमवरुन्धे येजिरसि बर्हिषे त्वा स्वाहेत्याः प्रजा वै बर्हिः पृथिवीवेदिः प्रजा एव पृथिव्याम् प्रतिष्ठापयति बर्हिरसस्रुभ्यस्त्वा स्वाहेत्याः प्रजा वै बर्हिः यजमानस्रुतः यजमानमेव प्रजासु प्रतिष्ठापयति गिरे त्वान्तरिक्षायत्वा पृथिञ्जे त्वे हि प्रोक्षति येभ्य एव लोकेभ्यः प्रोक्षति अथ ततः सहस्रुचा पुरस्ता प्रत्यञ्चम् ग्रन्थिम् प्रत्युक्षति प्रजावै बर्हिः काल आपः पुरस्ताद्यन्ति तादृगेव स्वधाकारो स्वधा हि पितृणाम् ओर्भव बर्हिषभ्य इति दक्षिणायै श्रोणेरोत्तरस्यै नयति सन्तत्यै मासा मे पितरो बर्हिषदः मासानेव प्रीणाति मासा वा ओषधेर्वर्धयन्ति मासा आपचन्ति समृद्ध्यै अनतिस्कन्दनः पर्जन्योपरिषति गच्छतेत्याह पृथिव्यामेवोर्जम् दधाति तस्मात्पृथिव्या ओर्जा भुञ्जते ग्रन्थिम् विस्रगुम्सयति प्रजनयत्येव तत् ऊर्ध्वम् प्राञ्चमुद्गूढम् प्रत्यञ्चमायच्छति तस्मात्प्राथीभुम् रेतोऽधीयते प्रदेचेः प्रजायन्ते यज्ञस्य धृत्यै प्रस्तात्प्रस्तरम् गृह्णाति मुख्यमेवैनम् करोति इयन्तम् गृह्णाति प्रजापतिना यज्ञमुखेन संमितम् इयन्तम् गृह्णाति यज्ञपरुषा संमितम् इयन्तम् गृह्णाति एतावद्वै पुरुषे वीर्यम् वीर्यसंमितम् अपरिमितम् गृह्णाति अपरिमितस्यावरुद्ध्यै तस्मिन् पवित्रे अपि सृजति यजमानो मै प्रस्तरः प्राणापानौ पवित्रे यजमान एव प्राणापानो दधाति पूर्णा अमृतसन्तास्तृणामीत्याह यथा यजुरेवैतत् स्वासस्थम् देवेभ्य इत्याह देवेभ्य एवैनत्स्वासस्थम् करोति बर्हि स्तृणाति प्रजा वै प्रजा एव पृथिव्याम् प्रतिष्ठापयति अनतिकृष्ण्यग्विस्तृणाति प्रजयैवेनम् पशुभिरणति कृष्ण्यम् करोति धारयन् प्रस्तरम् परिधीन् परिदधाति यजमानो वै प्रस्तरः यजमान एव तत् स्वयम् परिधीन् परिदधाति गन्धर्वोऽसि विश्वावसुरित्याः विश्वमेवाजुर्हितमाने दधाति इन्द्रस्य बाहुलसि दक्षिणयुक्त्याः इन्द्रियमेव यजमाने दधाति मित्रावर्णौ त्वोत्तरतः परिधत्तामित्याह प्राणापानौ मित्रावर्णौ प्राणापानादेवास्मिन् दधाति सोर्यस्ता पुरस्तात्पात्वित्याह रक्षसामवहत्ते कस्याश्चिदपिशस्त्या इत्याह अपरिमिता देवैनम् वाति गीतिहोऽत्रम् तागमयित्याह अग्निमेव होत्रेण समर्थयति दिवन्तकुम् समिधी महीत्याह समिध्यै अग्ने बृहन्तमध्वर इत्याह बुध्यै विशोदम् त्रेस्थलित्याह निशायत्यै उदीचीनाध्वे निदधादिप्रतिष्ठ्यत्यै वसूनागम् रुद्राणामादित्या नागम् सदसि सीदेत्याह देवतानामेव सदने प्रस्तरगम् साधयति जुहोरसिभृताचीनाम्नेत्याह असौ वै जुहोः अन्तरिक्षमुपभृत् विद्यवा तासामेतदेव प्रियम् नाम यद्धृताचीति यद्धृताचीत्याह प्रियेणैवै नानाम्नासादयति एता असदाम् सुकृतस्य लोक इत्याह सत्यम् वै सुकृतस्य लोकः सत्यदेवैना सुकृतस्य लोके साधयति ता विष्णो पाहीत्याह यज्ञो पाही पाही पाही जा वे विष्णुः यज्ञस्य धृत्यै पाहि यज्ञम् पाहि यज्ञपतिम् पाहि माञ्जज्ञनियमित्याह यज्ञायजमानाजात्मने तेभ्य एवाशमाशास्तेनार्त्यै अग्निलावै होत्रा देवा असुरानभ्यभवन् अग्नजे समिध्यमानाजानुब्रूहीत्याहभ्रातृजाभिभूत्यै एकविपुंसति विध्मदारूणि भवन्ति एकविपुंशो वै पुरुषः पुरुषस्याप्यै पञ्चदशे ध्मदारूण्यभ्या दधाति पञ्चदश वा अर्धमासस्य रात्रयः अर्धमासशः संवत्सर आवाप्यते त्रीन् परिधेन परिदधाति वूर्ध्वे समिधा वा दधाति अनूजादेभ्यः समिधमतिशिनष्टि षट्सम्पद्यन्ते षड्वा ऋतवः ऋतूमेव प्रीणाति वेदेनोपवाजयति प्राजापत्यो वेदः प्राजापत्यः प्राणः यजमान आहमलीयः यजमान एव प्राणम् दधाति त्रयो वे प्राणाः प्राणानेवास्मिन् दधाति दे वेदेनोपयत्यस्रुवेण प्राजावत्यमाधारमाधारयति यज्ञो वे प्रजापतिः यज्ञमेव प्रजापतिम् मुखत आरभते अथो प्रजापतिः सर्वा देवताः सर्वा एव देवताः प्रीणादि अग्निमर्नेत्रिस्त्रिः समृद्ध्येत्याह या वृद्धियज्ञः अथो रक्षसामपहत्यै परिधीन् सम्मार्ष्टि पुरात्येवैनान् त्रिस्त्रिः सम्मार्ष्टि त्रिया वृद्धियज्ञः अथो मे ध्यक्ताय अथो एते वै देवाश्वाः देवाश्वानेव तत्सम्मार्ष्टि स्वर्गस्य लोकस्य समष्टि आसीनोऽन्यवाघारवाघारयति तिष्ठन् वन्याम् यथा नो वा रथम् वा युञ्ज्यात् एवमेव तदद्धर्जरजज्ञम् जुनक्ति स्वर्गस्य लोकस्याभ्योऽभ्यै वहन्त्येन ग्राम्याः पशवः य एवम् वेद भुवनमसि विप्रथस्तेत्याह यज्ञो वे यज्ञदेवयजमानम् रजजा पशुभिः प्रथयति अग्नेयष्टरिदन्नमजिज्ञाः अग्निर्वै देवानाङ्यष्टा य एव देवानाङ्यष्टा तस्मा एव नमस्करोति जुह्वे यग्निस्त्वाह्वयति देवयज्ञाया उपभृदे हि देवस्ता सविताह्वयति देवयज्ञाया इत्याह आशाग्नेयी सावित्र्युमाभ्यामेवै प्रसूता दत्ते अग्ना विष्णो वा वामवक्रमिशमित्याह अग्न्यः पुरस्ताद् विष्णुर्जज्ञः पश्चात् ताभ्यामेव प्रतिप्रोत्स्यात्याक्रामति विजिहाम् मामासन्ताः तमित्याहाहिंसायै लोकम् मे लोककृतो कृणुतमित्याह आशिषमेवैतामासास्ते विष्णोस्थानमसीत्याह यज्ञो वै विष्णः एतत् खलु वै देवा देवानामपराजितमायतनम् यद्यज्ञः देवानामेवापराजित आयतने तिष्ठति यत इन्द्रो अगृणाद्वैग्याणीत्याह इन्द्रियमेव यजमाने दधाति समारभ्योऽर्ध्वोभरोदिविस्पृशमित्याहवृद्ध्यैः आघारमाघार्यमाणमनुसमारभ्य एतस्मिन्काले देवाः सुवर्गम् लोकमाजन् साक्षादेव यजमानः सुवर्गम् लोकमेति अथोसमृद्धेनैव यज्ञेन यजमानस्वर्गम् लोकमेति अहृतो यज्ञो यज्ञपतेरित्याहानार्त्यै इन्द्राधान्स्वाहेत्याह इन्द्रियमेव यजमाने दधाति बृहद्भावेद्याः स्वर्गो वै बृहद्भाः स्वर्गस्य लोकस्य समष्ट्यै यजमानदेवत्या वै दोः भ्राद्रुव्यदेवत्योपभृत् प्राण आधारः यत्सर्गस्पर्शयेत् भ्रातृव्येऽस्य प्राणम् असग्धस्पर्शयन्नत्याक्रामति यतमान एव प्रानन्दभाति पाहि माद्मे दुश्चरितादामा सुचरिते भजेत्याह अग्नर्वावपवित्रम् व्रजदानृतम् दुश्चरिताम् व्रजकर्मगम् सत्यगम् सुचरिताम् अग्निरे मेलम् व्रजदानृता दुश्चरितात्पाति व्रजकर्मे सत्ये सुचरिते भजति तस्मादेवमाशा आस्ते आत्मना गोपीधाय शिरो यदाघारः आत्मा ध्रुवा आघारमाघार्यध्रुवागम् समनक्ति आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति द्विः समनक्ति बो हि प्राणापानौ तदाहोः त्रिधातु हि शिर इति शिर इवै तद्यज्ञस्य अथो त्रयो वै प्राणाः प्राणानेवास्मिन् दधाति महस्य शिरसि सञ्ज्योतिषाज्योतिरङ्कामित्याह ज्योतिरेवास्मा उपरिष्टाद्दधाति स्वर्गस्य लोकस्यानुख्याते धिष्णिजा वा लो एते न्यप्यन्ते यद्ब्रह्मा यद्धूताः यदध्वर्युः यदग्नेत् यद्यजमानः तान यदन्तरेजात् यजमानस्य प्राणान् सङ्कर्षेत् प्रमायुकः स्यात् पुरोणाशमपगृह्य सञ्चरत्यध्वर्योः यजमानायैव तल्लोकगुंसि पुंसति नास्य प्राणान् सङ्कर्षति न प्रमायुको भवति पुरस्ता प्रत्यङ्गासीनः गिडाया इडामा दधाति हस्ताम्भोत्रे पशवो वा इडाः पशवः पुरुषः पशुष्वेव पशोन प्रतिष्ठापयति गिडायैवा एषा प्रजातिः ताम् प्रजातिम् यजमानानुप्रजायते द्विरङ्गुलादनक्तिपर्वणाः निपाद्यजमानः प्रतिष्ठित्यै सकृदुपस्तृणादि दिनादधादि सकृदभिघारयति च सम्पद्यते छत्वानि वै पशुः प्रतिष्ठानानि यावानेव पशुः कर्मपह्वजते मुखमिव प्रत्युपह्वजेत सम्मुखानेव पशोनुपह्वजते पशवो बा इडा तस्मात्सान्वारभ्याः अर्धर्जुना जगजमानेन च उपहूतः पशुमानसा नित्याह उपह्ये नौह्वयते ना होताः नाजे देवतानामुपहरे उपहूतः पशुमान् भवति य एवम् वेद याम् वैहस्त्यामादधाति वाचः सा भागधेयम् यामुपह्वयते प्राणानागुम् सा वाचम् चैव प्राणादिश्चावरुन्धे अथवा एतर्ह्युपहूतायामिडायाम् पुरोडाशस्यैव बर्हिषतो मे मा पुंसा यजमानम् देवा अब्रुवन् हविर्नो निर्वपेति नाहमभागो निर्वक्ष्यामीत्यब्रवीत् मम नमया भागजानुवक्ष्यथेति वागब्रवीत् नाहमभागा पुरोऽनुवाक्या भविष्यामीति पुरोऽनुवाक्या हमभागा याज्या भविष्यामीति याज्या न मया भागे न वषत्करिष्यचेदिवषट्कारः यद्यजमानभागम् करोति तानेव करोति चतुर्धा ता करोति चत तत श्रोति सः दिक्ष्वेव करोति यजमानो मयि पुरोणासः यजमानमेव प्रजासु प्रतिष्ठापयति तस्मादस्थान्याः प्रजाः प्रतितिष्ठन्तिसेनान्याः अथो खल्बाहुः दक्षिणा वा एता हविर्गज्ञस्य अन्तर्देद्यवरुध्यन्ते दे। यत्पुरोणासंबरिभिषदम् करोतीति चर्धा करोति सत्वारोह्यते हविर्गज्ञस्य अर्थितः ब्रह्मा होताध्वर्युरग्नीत् तमभिवृषेत् इदम् ब्रह्मणः इदगुम्होतः इदमध्वर्योः इदमग्नीध इति रथैवादः सौम्ये ध्वरे आदेशवृत्तिघ्यो दक्षिणादीयन्ते तादृव तत् अग्निधे प्रथमजा दधाति अग्निमुखाश्यग्धेः अग्निमुखा मे वर्धिम् गजमानर्ध्नोति सकलुवस्तेर्यद्विरादधते वस्तेर्यद्विरभिधारयति षट्सम्पद्यन्ते षड्वा ऋतवः ऋतोनेव प्रीणाति वेदेन दे। दे ब्रह्मणे ब्रह्मभागम् परिहरति प्राजापत्यो वै वेदः प्राजापत्यो ब्रह्मा सविता यज्ञस्य प्रसोऽप्यै अथ काममन्येन ततोः त्रे मध्यम् वा एतज्जज्ञस्य यद्धोता मध्यत एव यज्ञम् प्रीणाति तथा ध्वर्यवे गतिष्ठा वा एषा यज्ञस्य यदध्वर्यः तस्माद्धरिजज्ञस्यैतामेवावृतमनो अन्या दक्षिणानीयन्ते यज्ञस्य प्रतिष्ठित्यै अज्ञमग्नेत्सकृत्सकृत्संवृढ्येत्याह पराङ्गिवह्येरर्हि यज्ञः इषितादैव्याहोताररित्याह इषितगम्हि कर्म क्रियते भद्रवाच्याय प्रेषितो मानुषः सोक्तवागाय सोक्ता ब्रूहीत्याह आशिषमेवैतामाशास्ते स्वगादयव्याहोतृभ्यदित्याह यज्ञमेव तत्सगाकरोति स्वस्त्यर्मानुषेभ्य इत्याह आशिषमेवैतामाशा आस्ते शयोर्ब्रूहीत्याह शयमेव वारहस्पत्यम् वा गधेयेन समर्थयति अधसृचावनष्टुग्भ्याम् वाजपतेभ्याम् व्यूहति प्रतिष्ठा वा अनुष्टुक अन्नम् वाजः प्रतिष्ठित्यै अन्नाज्ञस्यावरुद्ध्यै प्राचीञ्जुहो मोहति जातानेव भ्राद्रव्यान् प्रणुदते प्रतीचीमपभृतम् जनिष्यमाणानेव प्रतिनुदते स विशोच एवापोह्य सपत्नान् यजमानः अस्मिल्लोके प्रतितिष्ठति द्वाभ्याम् दि प्रतिष्ठो हि वसुभ्यस्त्वा यथा यजुरेवैतत् सृक्षुप्रस्तरमनक्ति इमे वै लोकासृचः यजमानः प्रस्तरः यजमानमेव तेजसा नक्ति त्रेधानक्ति त्रय इमे लोकाः एभ्य एवैनम् लोकेभ्यो नक्ति अभिपूर्वमनक्ति अभिपूर्वमेव यजमानम् तेजसा नक्ति अक्त किम् रिहाणादित्याह आज्रम् यजमानः प्रस्तरः यजमानमेव ते तेजसाने वियन्तु वजित्याह भज एवैनम् कृत्वा स्वर्गम् लोगम् गमयति प्रजां यो निम्मानिर्मृक्षमित्याह प्रजायै गोपेथाय आप्यायन्तामाप ओषधयनित्याह आप एवषधीराप्याजयति मरुताम् पृषदयस्थेत्याह मरुतो वै ईशते वृष्टिमे वावरुन्धे दिवम् वृष्टिमे रयेत्याह वृष्टिर्वैद्योः वृष्टिमे वावरुन्धे यावद्वा अर्धर्यः प्रस्तरम् प्रहरति तावदस्याजुर्मीयते आयुष्पा अग्नेऽस्याजुर्मे पाहीत्याह आयुरेवात्मन् धत्ते यावद्वा अध्वर्यः प्रस्तरम् प्रहरति तावदस्य चक्षुर्मीयते चक्षुष्टा अग्नेऽसि चक्षुर्मे पाहीत्याह चक्षुरेवात्मन्धत्ते ध्रुवासीत्याह प्रतिष्ठित्यै यम् परिधिम् पर्यधत्सा इत्याह यथा यजुरेवैतत् अग्नेदेव अग्नज एवैनञ्जिष्टम् करोति तन्त एतमनुजोषम् भरामीत्याहतानेवास्मा अनुगान् करोति ने, करो ने देशत्वदपचेतजाता इत्याहानुख्यात्यै यज्ञस्य पाठ उपशमितमित्याह भोमानमेवोऽपैति अरिधेन् प्रहरति यज्ञस्य समिष्ट्यै सृजौ सम्प्रस्रावयति यदेव तत्र क्रूरम् तत्तेन शमयति जुह्वामुपभृतम् यजमानदेवत्या वै जुहोः भ्रातृम् यदेवत्योपभृत यजमानायैव भ्रातृजमुपस्तिम् करोति सर्गस्रावभागाश्चेत्याः पसवो वै रुद्रा आदित्याः सर्गस्रावभागाः तेषाम् तद्भागधेयम् तानेव तेन प्रीणाति वैश्वरेत्यर्च एते हि विश्वे देवाः तृष्टग्भवति इन्द्रियम् वै तृष्प इन्द्रियमेव यजमाने दधाति अग्नेर्वामपन्नगृहस्य सदसि सादयामीत्याह इयम् वा अग्निरपन्नगृहः तस्या एवैने सदने साधयति सुम्नाय सुम्निणे सुम्नेवा धत्तमित्याह प्रजा वै पशवः सुम्नाम् प्रजामेव पशो नात्मम् धत्ते धुर्धुर्यौपातमित्याह जायापत्योर्गोपेथाय अग्ने दब्धाजोऽशीततमा इत्याह यथाजधुरेवैतत् पाहि माद्यदिवः पाहि प्रसिद्धै आशिषमेवैतामासास्ते अविशन्नः पितम् कृणुसुषदायो निर्गस्वाहेति युध्मसंरश्च नान्यम् वा हान्यपथनेभ्याधाय फलीकरणहो मञ्जुहोति अतिरिक्तानि वा युध्मसंरश्चनानि अतिरिक्ताः फलीकरणाः अतिरिक्तमाज्योच्छेषणम् अतिरिक्त एवातिरिक्तम् अथो अतिरिक्तेनैवातिरिक्तमाप्त्वावलुन्धे वेदद्देवेभ्यो निराजता ताम् वेदेनान्वृन्दान् वेदेन वेदम् विविदुः पृथिवीम् शापप्रथे पृथिवी पार्थिवानि गर्भम् विभर्ति भुवने ततो यज्ञो जायते विश्वदा निर्ति पुरस्तात् सम्यगिजुषो वेदेन वेदिपुम्मार्षणमित्यै अथो यद्वेदश्च वेदिश्च भवतः निशुनत्वाय प्रजात्यै प्रजापतेर्वा एतानि श्मश्रूणि यद्वेदः पदक्रिया उपस्थ आस्यति निशुनमेव करोति विन्दते प्रजाम् वेदकुम्भोदाहमनीति यज्ञमेव तत्सन्तनात्योत्तरस्मादर्धमासात् तगम् सन्ततमुत्तरेऽर्धमास आलभते कम् काले काल आगते यजते ब्रह्मवादिना वदन्ति सत्त्वा अध्वर्यः स्यात् यो यतो यज्ञम् प्रयुङ्क्ते तदेनम् प्रतिष्ठापयतीति पाताद्वा अध्वर्यज्ञम् प्रयुङ्क्ते देवा गातुविदो गातुम् विक्त्वा गातुमिदेत्याह गातु यत एव यज्ञम् प्रयुङ्क्ते तदेनम् प्रतिष्ठापयति तदे दे प्रतिष्ठति प्रजयासुभिर्यजमानः यो वा यथा देवतम् यज्ञमुपचरति आ देवता अभ्योमृश्यते आप आपीजान् भवति यथा देवताम् न देवता आभ्य आवृष्ट्यते वसीदान् भवति वारुणो वै पाशः इमम् पश्यामि वरुणस्य पाशमित्याह वरुणपाशा देवैनाम्मुञ्चते सविद्रप्रसोतो यथा देवताम् दे। देवताभ्य आवृष्ट्यते वसीदान् भवति धातुश्च यो नौ अग्निर्वै धाता पुण्यम् कर्म सुकृतस्य लोकः अग्निरेवेनाम् धाता पुण्ये कर्मणि सुकृतस्य लोके दधाति स्योनम् मे सह पत्या करोमीत्याह आत्मनश्च गजमानश्च चानात्यै संवाय समानुशासम् प्रजयेत्याह आश्रमेवेतामाशास्ते पूर्णपात्रे अन्ततो दुष्टुभा चतुष्पद्वा एतच्छन्दः प्रतिष्ठितम् पत्नी पूर्णपात्रे भवति तस्मिंल्लोके प्रतिष्ठानीति अस्मिन्नेव लोके प्रतितिष्ठति अथो वाग्वा अनुष्टृग वाङ्विशुनाम् आपो रेतः प्रजननम् एतस्माद्वै विशुनाद्विद्योतमानस्तनयन् वर्षति रेतस्य प्रजास्प्रजनयन् यद्वै यज्ञस्य ब्रह्मणा युज्यते ब्रह्मणा वैतस्य विमाकः अद्भिः शान्तिः विमुक्तम् वा एतर्हि योक्त्रम् ब्रह्मणा आदायै रेत एवास्याम् प्रजाम् दधाति प्रजयाहि मनुष्यः पूर्णः मुखं विमृष्टे अवभृथस्यैव रूपम् कृत्वा तिष्ठति परिवेषो वा एष यदुपवेशः न एवम् वेद विन्दते परिवेष्टानम् तमुत्करे यम् देवा मनुष्येत उपवेशमधारयन् ये अस्मदपचेतसः नस्मभ्यमिहाकुरो उपवेशोपविढिनः प्रजाम् वृष्टिमथोधनम् विपदो नश्च दुष्पदः ध्रुवाननपगान् कुर्विति पुरस्ता प्रत्यमुपगूहति तस्मा पुरस्ता प्रत्यम् च शूद्रा अपस्यन्ति स्थमिमत उपगूहति अप्रतिवादिन एवैनान्कुरुते धृष्टिर्वा उपवेशः सुरतोऽवध्यो ब्रह्मणा सगुसितः योपवेशे सामृच्छतु यम् निश्मयति अथास्मैनामगृह्य प्रहरति निरमुन्नुद ओकसः सपत्नो यः पृतन्यते निर्पाध्येन हमिषा इन्द्र एणम् पराशरीत् इह तिस्रः परावतः इह पञ्च जनागुम् अति तिश्रोतिरोचना यावत् सोऽ असद्दि परमान्त्वापरावतम् इन्द्रो न यतो वृत्रः यतो न पुनराजसि शश्वतेभ्यः समाभ्य इति त्रिवृद्वा एष वज्र ब्रह्मणा सपुंसितः विद्धा येभ्यो लोकेभ्यो निर्णद्य ब्रह्मणा शृणुते हतो साममित्याहस्तृत्वे यम् दृश्यात् सञ्ध्यायेत् श्रुतैवेमर्पयते ओ इति तृतीयाष्टः तृतीयप्रश्नः समाप्तः